मुद्गलपुराणं कण्ठं टु एकदन्तचरितम् अध्यायं सेवेण्टि टु गणासुरवधम् श्रीगणेशाय नमः वृत्समद उवाच तदस्वल्पे गदे काले मुनेर्होमपरायणः हुत्वाग्निं ध्याननिष्ठोऽभूद्गणेशस्य महात्मनः तदोऽग्निकुण्ठमध्या द्वौ गणेशो निःसृतः पुरः चतुर्बाहुधरो रक्तः स बभौ परमश्रिया सिद्धिबुद्धिसमायुक्तं सिंहगम् परशोर्धरम् एकदन्तं विशालाक्षं शुण्डादण्डविराजितम् नाभिशेषक्वणत्पादं ददर्शकपिधः परम् उद्धायतं न नाम सौभक्तियुक्तेन चेतसा पूजयित्वा प्रतुष्ठा वा धर्वशीर्षभवेन वै स्तोत्रेण तेन सन्तुष्टस्तमुवाच गजाननः गणेश उवाच तव पुत्रो मुनेकं वै जादो गणवधाय हनिष्यामि महादैत्यं ग्रहीष्यामि महामणिं तदस्तं मुनिशार्दूलप्रणम्य प्रत्युवाचः धन्यं मे जन्मदेवेश्य पितरौ तप आश्रमः विद्याव्रतादिकम् सर्वम् तव पादस्य दर्शनाद पुत्रभावेन सम्प्राप्तस्तारणान्मां न संशयः तदस्तस्य महाभक्तिं चक्रे वै नित्यमादराद तेन भक्तिरहस्यं यत् स ज्ञात्वा तदस्वात्मानमत्युग्रं निन्दयामास मानसे अहो मानवरूपोऽहं शान्तियोगेन सङ्गतः मया ज्ञानमदेनैव गले चिन्तामनिर्धृतः गणेशवन्नसन्देहस्तद्भक्रिया हीनचेदसा देवस्य समता नैव कर्तव्या भजनार्थिना ब्रह्मणस्पदिनाम स गणेशश्चैकराड् बभौ तस्य देहे मदर्थं वै दे। सत्ता पूर्णा प्रवर्तते सा सत्ता तस्मात् भजते महान् चिन्तामणिर्मया प्राप्तः पूजायां स्थापितो न गले धृतो मया मोहाद्गदश्चिन्तामणिर्ध्रुवं देवस्य भक्तिमाहात्म्यात् प्राप्तं भक्तेन भूषणं वस्त्रं वाहनखाद्यं च पूजनीयं न गन्धपुष्पादिकं तस्योच्छिष्टं धार्यं विशेषतः नैवेद्यं भक्षणीयं वै सदा भक्र्यादरेण च न देव समदा कार्यादासार्वै नित्यमादराद भययुक्तेन संसेवा कार्याभक्तेन धीमता मदीयः सङ्कतश्चिन्तामणिश्चाहो सुदुःखितः गतो दैत्यकरे साक्षादसुरस्तम् प्रपीडयेद् अतो गणेशमत्यन्तम् प्रार्थयामि वधाय च गणस्य तद्वधा चिन्तामणिः सद्य सुलभ्यते विचारिये दिश योगीन्द्र एकदन्तं जगाद च स्वामिन्हत्वा गणं शीघ्रम् मणिमानय विघ्नप कपिलस्य वच श्रुत्वा हृष्टस्थं त्वेकदन्तकः जगाद ते प्रियं तादकरिष्यामि न संशयः एकदन्तेन तद्रात्रौ स्वप्नो दत्तो गणस्य च स्वप्नेन भ्रान्तरूपो भूद्विचारमकरोत् स्वयं सिंहारूढश्च दुर्बाहुकुञ्चराननधारकः परश्वतर क्रूरकोऽयं स्वप्ने प्रदर्शितः कपिलेन समाधिष्ठो मस्तकं मे सोच्चिनद मणिं समागृह्य ददौ कपिलाय महात्मने अयम् स्वप्नो मया दुष्टो दृष्ट किं वा भविष्यति अधः कपिलनाशार्थं यामि सैन्यसमन्वितः ततो धृत्वा जस्त्रादीन्नावीरसमन्वितः रात्रौ कपिलमुग्रोऽसौ ययौ हन्तुं तदाश्रमं प्रभादे दैत्यराजः सम्प्राप्तः कपिलाश्रमं शिष्याैर्दृष्टो महादुष्टः कपिलं ते ययुस्ततः स्वामिन् समागतो दैत्यो गणनामा ससैनिकः ऊचुशिष्या प्रणम्यैनं कपिलं भयसंयुताः तदोगणपतिं नत्वा वधार्थं तस्य वै मुनिः प्रार्थयामास शीघ्रं स गणस्य विनयान्विदः तदक्रुद्धो गणेशानसिंहारूढो ययौ गणम् गणेन पुरुषो दृष्ट स्वप्नगः स च निश्चितं ततो गणेन उदायुधा महोग्रास्त आययोर्देवसन्निधिं तान् दृष्ट्वा कुपिता पुत्रं सा निर्ममेतुलम् तेन सर्वं हदं सैन्यं प्रेरितेन गणस्य वै सिद्ध्या पलायतसैन्यं तस्य दिशो दश विजयीपुरुषसोऽपि गणेशं प्रणनामः शस्त्रीकं तेन नाम्ना सदो लक्ष इति प्रभुः जगति ब्रह्मणि त्वं वै तिष्ठ सर्वत्र पुत्रक नरेण यादृशं लक्षम् क्रियते भुङ्क्ष्वतादृशम् हृदि लक्ष्यप्रतापि त्वं सर्वेभ्यो नात्र संशयः सिद्धिपुत्रमहाभागमद्भक्तान् रक्षयत्नदः बुद्धिपुत्रस्वयं लाभफलदा भा भविष्यदी अनुसारेण लक्षस्य तव महाबलः भुक्तौ मुक्तौ तथा पापे कृति ब्रह्मणि जन्तवः लक्ष्यं कुर्वन्ति एतेषां लाभश्चैतादृशो भवेत् यवमुक्त्वा स्वपुत्रं तं लक्षमेकरदस्ततः युद्धाय सययौ तत्र यत्र दैत्याधिपो भवद तमागतं स विज्ञाय प्रतापीसगणासुरः हन्तुं शस्त्रममोखं यदा ददे धनुषि स्वयम् तावच्च गणराजेन परशुना तूग्रवे गिना दैत्यराजगणस्यैव शिरच्छिह्नम् पपात सः आहा कृत्वा सुरा सर्वे पादालम् विविशुस्ततः देवाहर्षयुता सर्वे मुनयस्तेयुर्विभुं कपिलम् सान्त्वयामासा गृह्य दत्त्वा मणिम् पुनः कपिलायैकदन्तस्तु कपिलः प्रणनामतं जगादभक्तिसंयुक्दकपिलो गणनायकं स्वामीं त्वदीय मे दद्वैभूषणं तद् गृहाण भोः अस्माभिपूजनीयं तच्चायोग्यं धारणे प्रभो अतस्त्वमेव विघ्नेशस्वगले स्वगले तद चित्ते निवासिनः स्वामिं त्वया ज्ञातमदः प्रभो मदीयं चिन्तितं सर्वं तादृशं सभरं कृतम् अधस्ते भविदा चिन्तामनिर्नामनसंशयः यवमुक् स्वयं तस्यारोपयत्तं मणिं गले तदश मणिमादाय स्वानन्दं चैकदन्तकः अन्तर्धानं चकारापि देवेशा विस्मिता कपिलेन सदा ध्यानबलेन हृदये विभुः चिन्तामणिः सुभावेन पूजितस्तत्त्वबोधिना एवं गणासुरं हत्वा भक्तिं दत्त्वा सुरेश्वर कपिलायै गदन्दस्तु चक्रेवै वै साधुरक्षणम् इदमेकरदस्यैव चरितं सर्वदं परम् शृणुयात्सर्वपापघ्नं पठेद्वा तस्य सम्भवेद् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे ये गणासुरवधो नाम द्विसप्ततितमोऽध्यायः ॐ